हरि ओम् श्री सीतारामचन्द्रभ्यां नमः अथ श्रीमदध्यात्मरामायणे किष्किन्धाकाण्डे तृतीय स्वर्गे श्रीमहादेव उवाच नियते रामेण परमात्मना दुद्रूर्वानरा सर्वे किष्किन्धाम्भय विह्वलः तारामोचर महाभागे अतो वाली रणाजिरे अङ्गनम् परिरक्षाद्य मन्त्रिण परिणोदय चतुर्द्वारिकपाठादीन् बध्वा रक्षामहे तुराजानं अंगदं तु नियतं वारिनं श्रुत्वा ताराशोकविमूर्छिता अताडय स वाणिभ्याम् शिरोभक्षश्च भूरिशः ी बङ्गालेन राज्येन नगरेण धनेन वा इदानीमेव निधनम् यास्यामि पतिना तत्र रुदती मुक्त मूर्धया ययोतारातिशोकार्ता यत्र भर्तृकलेवरम् पतितम् वालिनम् दृष्ट्वा रक्ते पाशुभिरावृतम् रुदन्ती नाथनाथेति पतिता तस्य पादयोः करुणं विलपन्ति सा ददर्श रघुनन्दनं राम माम जहि बाणेन येन वालिहत त्वया गच्छामि पतिसालोक्यं पतिर् माम् अभिकाङ्क्षते स्वर्गेऽपि न सुखं तस्य मां विना रघुनन्दन पत्नी वियोगजम् दुःखम् अनुभूतं त्वया नघे लिने मां प्रेयच्छासु पत्नी दान भवेत् सुग्रीव सुखं राज्यं तापितं वालिघाति नः रामेण रुमया सार्धम् भुङ्क्वे सा पत्नवर्जितम् इत्येवं विलपन्तीं तां तारां रामो मह मनः सान्तयामासयया तत्र ज्ञानोपदेशतः किं भीरुशोची शोकस्याविषयं पतिं पतिम् पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः पञ्चात्मको जडो देह संमास रुधिरास्ति मान् कर्म गुणोत्पन्न सोप्यास्ते ज्ञापिते पुरः मन्यसे जीवमात्मानं जीवस्तर्हि निरामयः न जायते न म्रियते न तिष्ठति न गच्छति न स्त्री पुमान् जीव सर्वगतो व्यय एकैवादितोऽयम् आकाश वद लेपकः नित्यो ज्ञानमय शुद्ध स कथं चोकमर्हति तारोवाच देहे चित्काश्च वद्राम जीवो नित्य शिलात्मकः सुख दुःखादिसम्बन्ध कस्य स्यात् राममेव श्रीराम उवाच अहङ्कारादिसम्बन्धो यावद्देहेन्द्रियै सह संसार तावदेव स्यात् आत्मनः से संसारो न स्वीयं विनिवर्तते विषयं ध्यायमानस्य स्वप्ने मिथ्यागमो यथा अनाद्यविद्यासम्बन्धात् तत्कृत संसारो पाठ कॉपी सैग देशादी सुर मन ही संसारो बंधच मनशुभ आत्मा सामन तंधवा यहाँ सीपर्णयुगा भाति वस्तु तो नाजनम बुद्धीन्द्रियादि सामीप्यात् आत्मनः संसृतिर्बलात् आत्मा स्वलिङ्गं तु मनः परिगृह्य तदुद्भवान् कामाञ्जुषन् गुणैर्बद्ध संसारे वर्तते अवश्य आदौ मनो गुणान् सृष्ट्वा ततः कर्माण्यने कदा शुक्लोहित कृष्णानि गतय समानतः एवं कर्मवशात् भ्रमत्याभूतसम्भवम् सर्वोपसंहृतो जीवो वासनाभिः स कर्मभिः अनाद्यविद्यावचकः तिष्ठत्यभि निवेशतः सृष्टिकाले पुनः पूर्व वासनामानसै सः दायते पुनरप्येवम् घटीयन्त्रम् विवावशः यदा पुण्यविशेषेण लभते सङ्गतिं सताम् मद्भक्तानां सुशान्तानां तदाहं मद्विषया मतिः श्रवणे श्रद्धा दुर्लभा जायते ततः ततस्वरूप विज्ञानम् अनायासे न जायते तदाचार्य प्रसादेन वाक्यार्थ ज्ञान तक्षण देहेन्द्रिय स्वात्मानो भवतः सत्यम् ज्ञात्वा सद्यो भवेन्मुक्त सत्यम् एव मयोदितम् एवम् मयो सम्यक् आलोचयति योनिशम् तस्य संसारदुःखानि न स्पृशन्ति कदाचित् त्वमप्येतन्मया प्रोक्तम् आलोचय विशुद्धधि न स्पृश्यते कर्मबन्धा विमोक्षसे पूर्वजन्म ते शुभ्र कृता मद्भक्तिरुत्तमः अतस्तव विमोक्षाय रूपं वे शुभे ज्ञात्वा मद्रूप मनिशम् आलोचय मनोदितं प्रवाह्य पतितं कार्यं। कुर्वत्यपि न श्रीरामेणोदितं सर्वं रुत्वा ताराति विस्मिता देहाभिमानजं शोकम् त्यक्त्वा नत्वा रघुत्तमम् आत्त्वा नु भव सन्तुष्टा जीवन्मुक्ता बभूवः क्षणसङ्गममात्रेण रामेण परमात्मना अनादिबन्धं निर्धूय मुक्ता सापि विकल्मषाय सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्त्वा ज्ञानम् अखिलम् स्वसचितो भवत्तर तथा सुग्रीवमायेनम् रामो वानरपुङ्गवम् भ्रातु ज्येष्ठस्य पुत्रेण यद्युक्तम् साम्परायकम् कुरु सर्वं यथा संस्कारादि ममाज्ञया तथेति बलिभिमुख्यै वानरै परिणीयतम् लिनं पुष्पके क्षिप्त्वा सर्वराजोपचारकै देदे दुन्दुभि निर्घोषै ब्रह्मणै मन्त्रिभिः सह यूथपै वानरे पौरै तारय चाङ्गदेन च गत्वा चकार तत्सर्वं यथाशास्त्रं प्रयत्नतः स्नात्वा जगामरामस्य समीपं मन्त्रिभिः सह न त्वा रामस्य चरणौ सुग्रीवप्रह रुष्टधिजम् प्रसाधि राजेन्द्र वानराणाम् समृद्धिमत् दासोऽहं ते पादपद्मम् देवे लक्ष्मणवच्चिरम् इत्युक्तो राघवप्रह सुग्रीवम् सस्मितम् वचः तम् विवाहं न सन्देह ज्याधिपत स्वात्माचय नगर न प्रवेश चतुर्दशे आगामी श्राता लक्ष्मण तवे तब अंगदम यहुराज्ये अभिषेत सदरम अहम समीपे शिखरे पर्वतस्य सहानुज वक्ष्यामि वर्षदिवसां तत्तत्सम् यत्नबान्धव किञ्चित् कालं पुरस्थित्वा सीताया परिमार्गणे साष्टाङ्गं प्रणिपत्य सुग्रीवो रामपादयोः यदाज्ञापयते देव तत्तथैव करोम्यहम् अनुज्ञातः च रामेण सुग्रीवसु सलक्ष्मणः गत्वा पुरं तथा चक्रे यथा रामेण चोदितः सुग्रीवेण यथा ध्यायम् पूजितो लक्ष्मणस्तदा अगत्य राघवम् क्षीरम् प्रणिपत्यो पतत्तिवान् ततो रामो जगामाशु लक्ष्मणेन समन्वितः प्रवर्षण गिरीरूर्ध्वम् शिखरं भूरिविस्तरम् तत्रैकं गौहरं दृष्ट्वा स्फाटिकं दीप्तिमशुभम् वर्ष वाताय च रोचयामास तत्र रामः स लक्ष्मणः दिव्यमूलफलपुष्पसंयुते मुक्तिकोपमजलौघल्वले चित्रवर्णमुग पक्षि शोभिते पर्वते रघुकुलोत्तमोऽवस इति श्रीमदध्यातु रामायणे मामय किन्धाकाण्डे तृतीय स्वर्गे श्रीसीतारामचन्द्रार्पणमस्तु